देवयानुवाच राजा यं नाहुशस्तात दुर्गमे पाणिमग्रहीत् नमस्ते देहि मामस्मै लोके नान्यं पतिं वृणे शुक्र उवाच ऋतोनया पतिर्वीर सुतया त्वमेषष्टया गृहाणे मामया दत्तां महिषीं न हुषात्मजा ययातिरुवाच अधर्मो न स्पृशे ब्रह्मन् इति प्रवृणोम्यहं शुक्र अधर्मा त्वां विमुञ्चामि वृणुत्वं अस्मिन् विवाहे मा लासीरहं पापं नुदामिते। ते वः स्वभार्यां धर्मेण देवयानीं सुमध्यमाम् अनया सह सम्प्रीतिम् अतुलां समवाप्नुहि पि कुमारीते शर्मिष्ठावर्षपर्वणि सम्पूज्या सततं राजन्मा चैनां शयनेह्व वैशम्पायन उवाच एवमुक्तो ययातिस्तो शुक्रम् कृत्वा प्रदक्षिणम् शास्त्रोक्तविधिना राजा विवाहमकरोत् शुभम् लब्ध्वा शुक्रान्महद्वित्तं महद्वित्तम् देवयानीम् तदोत्तमम् द्विसहस्रेण कन्यानाम् तथा शर्मिष्ठया संपूजित शुक्रेण दैत्य नृपसम जगामस्वपुर हृष्टुथ महात्महाभारण संभवपर्वण ययातुपाख्याशीतिमोध्याय